गणेशपुराणम् क्रीडाखण्डम् अध्यायम् हण्ड्रेड् एण्ड् टेन् क उवाच जयशालीमयूरेशो यात्यग्रे हर्षनिर्भरः पृष्ठदो यान्ति बालास्ते ततो वृषगदशिवः गौतमाद्यामुनिगणालग्नसिद्ध्ययुस्ततः गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च योजनावधि गण्डक्या अवरुह्य शिखण्डिनः अधिष्ठत्स मयूरेशो महार्कासनमुत्तमं तदसर्वानुपावेश्य शिवं गणमुनीश्वरान् वाद्यत्सु तानाः स मयूरराड सिन्धुना निहिता कारागृहे शक्रादिदेवता विना तन्मोचनं लग्नसिद्धिर्नैव भविष्यति अतस्तन्मोचनार्थाय प्रेष्यतां सिन्धवे महान् बुद्धिमान् स गृहीत्वा चेदागच्छेत्तान् सुरानध तदा साम्नैव सर्वेषाम् कुशलं हि भविष्यति नो चेद्युद्धेन जेष्यामोरणे सिन्धुम् महाबलम् मोचयिष्याम तान् देवांस्तदो लग्नम् भविष्यति क उवाच एवम् तद्वचनम् श्रुत्वा प्राहुस्सर्वे गुणेश्वरम् सम्यगुक्तं मयूरेश सुधिया सदृशं वचः बालभावेऽपि ते बुद्धिर्बृहस्पतिसमाशुभा पुष्पदन्तं महाबुद्धिं निधिशास्त्रविशारदं प्रेष्यतां सिन्धुनिकडे देवमोचनहेतवे वक्त्रारम्बलिनं श्रेष्ठं स्तोत्र सन्तोषितेश्वरं क उवाच तद ऊजे पुष्पदन्तो मयूरेशं सुरेश्वरं महिमाते मयूरेश मनोवाचामगोचरः जानन्ति न जनामायामोहितास्तव नित्यदृगारहरणार्थत्वमवतीर्णशिवालये न मां प्रेषय तत्र त्वमन्यं प्रेषय साम्प्रतम् अपारसेनया युक्तं सिन्धुदैत्यं महाबलम् उद्धदम्बलिनं द्रष्टुमहं शक्यामि न क्वचिद युद्धमेव करिष्यामि तदो दोर्दण्डते जशा यदि सां भवेत् कार्यं युद्धं तत्र वृद्धामदं दानं भेदो वृद्धा दण्डो नीदिरेशा सनातनी एवमाकर्ण्यतद्वाक्यमुवाच पार्वतीपतिः सम्यगुप्तः पुष्पदन्तनिधिमार्गः पुरातनः क्रोधवान्न क्षमः साम्नि केवलं बलवान् परः करिष्यति महादुष्टं प्रेषितश्चेत् षडाननः प्रेषितो वीरभद्रश्चेत् क्रोधमेव शृङ्गी चेत् प्रेषितस्तत्र संहारं स विधास्यति प्रमथप्रेषितो मत्तो न जाने किं करिष्यति प्रेषितश्चेद्भुतराजो मेषयिष्यति तां सभां स्त्रीसम्भोगरदस्यातु प्रेषितो रक्तलोचनः तदो ब्रवीन्मयूरेषु निरस्तेषु च तेषु च नन्दी समुद्रगम्भीरो धैर्ये पर्वतसन्निभः बुद्ध्या बृहस्पति समो जम्भारिसदृशो बलं धूर्तः पराशयत् ज्ञादा प्रेष्यतां सामघेतवे शिव उवाच सम्यगुक्तं मयूरेश ज्ञादासि गुणदोषयोः नन्दिनी वस्त्रं रत्नानि विविधानि च तदो ददौ मयूरेशस्तानि तस्य शिवाज्ञया आज्ञापयामास च दं महाबलं यथादेवा देव विमुच्यन्ते तथा निर्विधीयतां स तु नत्वा मयूरेशं स शिवां शिवमेवच गणान् सर्वान् महावाक्यै स्तुत्वा तं च शिवं शिवाम् उवाच बुद्धिसम्पन्नो दृष्ट्योचितमिदं वचः नन्द्युवाच स महां जायते लोके यस्य वस्यादनुग्रहः अधोकं स्रष्टतां नीतः साधयिष्ये प्रयोजनम् प्रसादेन भूगोलं विधास्येऽन्युज्जमज्जसा शेषं सूर्यं वो निकटे अनयिष्येन संशयः क उवाच यवमुक्त्वा यौनन्दी सिन्धुदैत्यं बलान्वितः गतः स नगरद्वारं मनोवेगेन धैर्यवान् ध्यायन् गणेशं शम्भुं च शिवां सर्वार्थसाधिकाम् ऋता कर्म प्रतिथयामासदी श्रीगणेशपुराणे क्रीड़ाखंडे दशाधिकम्याय